देविमहिम्नस्तोत्रम् चन्द्रचूड उवाच त्वमन्तस्त्वं पश्चात्त्वमसि पुरतस्त्वं च परतः त्वमूर्ध्वं त्वं चाधस्त्वमसि खलु लोकान्तरचरी त्वमिन्द्रस्त्वं चन्द्रस्त्वमसि निगमानामुपनिषद तवाहं दासोऽस्मि त्रिपुरहररामे कुरु कृपाम् इयान् कालसृष्टे बहु कष्टे गमितो विना यत्त्वत्सेव करुणरसकल्लोलिनि शिवे तदेतद्दौर्भाग्यं विषय तृष्णाख्यरिपुणां हतशुद्धानन्दं स्पृशिमि तव सिद्धेश्वरिपदम् सुधाधारावृष्टेस्तव जननि दृष्टेर्विषयतां वयं व्यामो दामोदरभगिनि भाग्येन फलितम् इदानीं भूदानां ध्रुवमुपरि भूताः परमुदा न वाञ्छामो मोक्षं विपिनपथि कक्षं हर जपादौनोऽसक्ता हरगृहिणीभक्ता करुणया भवत्या होमत्या कदि कदि न भावेन गमिताः चिदानन्ताकारं भवजलधिपारं निजवदं नदे माधुर्गर्भे जननि तव गर्भे यदि गदाः चिदेवेदं सर्वं श्रुतिरिदि भवत्या स्तुति कथा प्रियं भात्यस्तीति त्रिविधमपि रूपं तव शिवे अणोर्दीर्घं ह्रस्वं महदजरमन्दादिरहितम् त्वमेव ब्रह्मासि त्वदपरमुदारं न गिरिजे त्वयान्तर्यामिन्या भगवदि वशिन्यादिसहिते विधीयन्ते भाव मनसि जगदामित्युपनिषद अहं कर्तेत्यन्तर्विशद मम बुद्धिः कथमुमे सुबुद्धित्वद्भक्तो न भवति कुबुद्धि क्वचिदपि न मन्द्रं वा किमपि खलु विद्मो गिरिसुते कुर्मस्तव चरणसेवा न अये मादप्रादप्रभृदि दिवसास्तावधि वयं अङ्गार्ये शिवशिवन यामो निजवयः इहामुष्मिल्लोके ह्यपिनविषये प्रेमकरवे न मे वैरी कश्चिद् भगवति भवानि त्रिभुवने गुणान्नामाधारं निगमगणसारं तव पदं मनो वारं वारम् जपति च विनोदं च भजते महामाये काये मम भवति यदृक् खलु मनो मनस्ते सङ्ख्याने न हि तादृक्कथमुमे त्वमेवान्दर्मादर्निगमयसि बुद्धिं त्रिजगदां न जाने श्रीजानेरपि न विदितस्तेऽत्र महिमा अमीषाम्बर्णानां कृदुः करणसम्पूर्णवयसाम् निकाम्यं काव्यानामुरसिसमुदायं समुदायं प्रकटितम् स्तनौ दयाधाराधारं मम जननिकारं तव भजे स्तनद्वन्द्वं स्कन्धद्विपमुखमुखे यस्नुतमुखं कदाचिन्मे मादर्वितरतु मुखे स्तन्यकणिकाम् अनेनायं धन्यो जगदुपरि मान्योऽपि भवतां कुपुत्रे सत्पुत्रे न हि भवति मा दुर्विषमता जगन्मूलं शूलं ह्यनुभवदिकूलं कथमिदं द्विधा पूर्वे सर्वेश्वरि मम तुगर्वेण पदद्वन्द्वं द्वन्द्वं व्यधिकरहरं द्वन्द्वसुखदं गुणा रामे रामे कलयहृदि सदा अहोरात्रं गात्रं समजनिन पात्रं मुदा धनायत्तं चित्तं तृणमपि दुर्निश्चित्तमभवद इदानीमानीता कथमपि भवानी हृदि मया स्थितं मन्ये धन्ये पथि कथमधन्येहमुचितः निराकारा मारादधिहृदय माराधितवता मया मायातीदासितसकलकायापहतये अहङ्कोहं सोहं मदिरिदि विमोहं हदवधि कृता हन्दानन्दामुपनयदि सन्तानकवति त्वदङ्ख्रेरुद्योदातरुणकिरणश्रेणि गमनात्समुद्भूता ये ये जगदि जयिनः शोणमणयः तयेते सर्वेषां शिरसि विदुषां भान्तिभुवने त्वदीयादन्यः भवदिजन भवति अकार्षीत्सोमर्षि भुवनमपरं गाधितनयः शशा पान्यो लक्ष्मीमपि बदपरो ह्यर्णवमिति सपर्यामाहात्म्यं तव जननि कियद्वक्ष्ये यक्षेश्वरकिरणदत्तं भगवती अमि देवा विदधधि यदो मञ्चकथया शिवो पृच्छाया रचितरुचिरप्रच्छदतया कृतार्थीकर्तुं मां परमशिव वामाङ्गनिलया परब्रह्मस्फूर्तिस्तव जयदि मूर्तिस्सकरुणा समुद्धर्तुं भक्तान् प्रभवदि विहर्तुं जगदिदं गतिं विनिमयदि विनिमयदिरूपं च नियमाद यदृच्छा यस्येच्छा न च भजनविच्छेदभयदो नमस्ते भक्ताय ध्रुवभजनसक्ताय गिरिजे उमा मायामादा कमलनयना कृष्णभगिनी भवानी दुर्गाम्बा मदिरमरलक्ष्मीदितरला महाविद्यादेवी प्रकृतिरजजाये गिजपदां भवन्ति श्रीविद्ये तव नामानि निधयः दिशां पाला बाला हरहरि हरहरिसरोजासनमुखास्त्वया दुर्गे सर्वे कदि कदिन न भक्ता अधिकृताः स्वयं रक्ता भक्ता वहमधिकृतो नाधिमगमं सुखे वा दुःखे वा मम समतया यान्दुदिवसाः भवत्या भक्तानां यदि किमपि कश्चिद्विधिकृते पुरो वा पश्चाद्वा परवशः जनश्चेत् संन्या सादपि जपदि नारायणपदं ततोप्येनं देवी नयनपदविधिं गमयति क्रिया वा कर्ता वा करणमपि वा कर्म यदि वा प्रणीयन्ते चेष्टा जगदि पुरुषैर्भावकलुषैः समर्प्य स्वात्मानं तव तु पदयोरिन्द्रपदवीमिदं वा तद्विष्णोर्गणयदि न स्वयमाया कार्याद्युदयकरणे कौतुभवदी शिवादीनां सर्गस्थितिविलयकर्माणि बिभृशे अयं नाम, नाम भगवदी शुभस्यात् तव यदा भवान्यां भक्तानाम् अशुभमपरं ते पिन धरित्री शम्भोधित्वमपि दहनस्त्वं च पवनस्त्वमाकाशस्त्वं च ग्रसदि पुरुषस्तेन सहितं प्रसन्धिब्रह्माण्डं प्रकृतिरभि दासी पशुपदेर्यदासीत् संहारे जननि तव संहारमहिमा पुरतारमाल्यं ग्रह निवहनीराजनविधिर्हविर्धूमो धूपो मलयपवमानः परिमलः इदं तेनैवेद्यं विविधरसवेद्यं खलु सुखं सपर्यामर्यादाध्रुवमियमु मे ब्रह्मनिलये नवाधारा सृष्टिस्फुटित नवध शब्दरचना नवा नवधा मुपरी नवध्यर्चित पद नवा, नवा, नवा, नवा संख्या प्रकृतिरगराजन्यतन नवद्वीपी देमसी नवचक्रेश्वरी शिवे। यदा कृष्याकृष्या तपदि भवदम्बा क्वनुगदा बलात्काराधारादिधियमफटे नाम विधया तदैवैनं दीनं स्पृशति वदने प्रश्रयवती विधूयाम्बाधूर्तं गुहमपि धयन्तं भगवती अविर्धाने गीतम् श्रुतिशिरसि निर्धारितमिदं शिवस्यार्धाङ्गस्थं परममहदधा मम मनः यदा चक्षाणस्ते चरणतललाक्षासजलैर्मुखं प्रक्षाल्यायं गणयदिनलक्षाणि कृतीनाम् गुरूणाम् सर्वेषा मयमुपरि विद्यागुरुरभून्मनूनां सर्वेषामयमुपरि जादो भुवमनुः कलानां सर्वासामियमुपरि लक्ष्मीः परकला महिम्नां सर्वेषामयमुपरि जागर्ति महिमा यदा लापादापादिदविधविद्या परिणतिः करे कृत्वा मोक्षं व्यवहरदि लोकं प्रभुतया प्रणादेवा चाये प्रभवति दुरापे च पुरुषस्तदेतन्माहात्म्यं विरलजनसारम्यं तवशिवे याभिः शङ्करकालकृत्यदहनज्वालात्समुत्सारणं याभिः शुम्भ निशुम्भदर्पदलनं याभिर्जगन्मोहनं याभिभैरवभीमरूपदलनं सद्यकृदं मेन्वहं दारिद्र्यं दलयन्तु तास्तव दृशो दुर्गे दया मे दुराः याभिर्दुर्गदया कुशासन पुनः स्वाराज्यदानं कृतं याभिर्भारद संसदिद्रुपदजा लज्जा जवाद्रक्षिता याभिकृष्णगृहीतहस्तकमलैष्ठाणं कृतं मेन्वहम् दारिद्र्यं दलयन्दुतास्तव दृशो दुर्गे दया मे दुराः याभिर्विष्णु कृते कृतं कुरुकुलप्रध्वंसनं सङ्गरे प्राद्युम् निर्हृदि मुद्गरस्य कल्पिता, क्रंसाद्याभिरपि व्यथा इव सुधा गोपालगोपायनम् दारिद्र्यम् दलयन्तु तास्तव दृशो दुर्गे दया मे दुराः याभिस्तावरजङ्गमम् कृतमिदम् याभिः सदा पालितम् याभिर्भासिदमाक्रमेण च पुनर्याभिस्सदा संहृदम् याभिर्दुःखमहाम्भसो भव महासिन्धोर्नकेतरिता दारिद्र्यं दलयन्तु तास्तव दुर्गे दया दुराः इति देवी महिम्नस्तोत्रं सम्पूर्णम् ओ